श्रीमद्भागवतमहापुराणं नु स्कन्ध असद्वाविंशोऽध्यायः पाञ्चालकौरव और्मगद्देशीराजां के वंशका वर्णन् श्रीसुकुवाच मित्रेयुश्च दिवोदासाच्च वनस्तत्सुतो नृप सुदाससह देवोऽथ सोमको जन्तु जन्म कृम् तस्य पुत्रशतं तेषां यवीयानभृष्टसुतः द्रुपदो द्रौपदी तस्य धृष्टदुम्नादयसुताः धृष्टदुम्ना धृष्टकेतुर्भार्याः पञ्चालका इवे योजमीढसुतोषन्यक्षसंवरणस्ततः तपत्यां सर्यकन्यायां कुरु क्षेत्रपते कुरु परिक्षे सुधनुर्जह्नुर्निषधाश्वकुरोसुताः सुहत्रो भूतसुधनुश्च मनोथ तत कृति वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः कुशाम्बमस्य प्रत्यगचेदिपाद्यास्य चेदिपाः बृहदथात् कुशाग्रो भून् दृषभस्तस्य तत्स्तुतः जज्ञे सत्यहितोपत्यं तस्वमान्तस्तुतो जहू अन्यस्यां चापि भार्यायां शकुले द्वे बृहदन्द्रध्रतात् ते मात्रा बहिरुत्सृष्टे जर्या चाभिसन्धिते जीव जीवेति क्रीडन्त्या जरासुन्धो भवस्तुतः ततश्च सहदेवो देवो भू परीक्षदनपत्यो भूशरथो नाम जाह्मवः ततो विरूधस्तस्मात् सार्वभौमस्ततो भवत जयसेनस्ततन्तनयोराधिकोतो युतोषभूत् ततश्च क्रोधनस्तस्माद्देवातिथिरमुष्यत दृश्यतश्च दिलीपो भूत्प्रदीपस्तस्य चात्मजः देवापि सन्तनुस्तस्य बाल्कैश्चात्मजाः पितृराज्यं परित्यज्य देवपि स्तो देवापि स्तुवनं देवा गतः अभवच्छन्तनूराजा प्राङ्महाभिषितः यं यं कराभ्यां सृसति जीर्णं यौवनमेति स शान्तिमाप्नोति चैवाग्रां कर्मणां तेन शन्तनुः समाद्वादशसद्राज्यै नववर्ष यदा विभू दन्तनुर्ब्राह्मणैरुक्तः परिवेतायमग्रभू राज्यं देह अग्रजायाशु पुरा राष्ट्राभिध्यये एवमुक्तो द्विजय श्रेष्ठं छन्दमं सं तन्मन्त्री प्रहितैर्विभ्रहिदाद्विभ्रंसितो गिरा वेदवादातिवादान्वै तदा देवो ववर्षः देवाप्रयोगमास्थाय कलापग्राममाश्रितः सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यते दार्लिकातः सोमदत्तो भूर्भूरि भूरिश्रवास्ततः शलाश्च शन्तनोरासीद्गङ्गायां भीष्म आत्मवान् सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः वीर्ययूथा ग्रणीर्येण रामोऽपितोषितः शन्तनोर्दासकन्यायां यज्ञे चित्रा चित्राङ्गदर्शुतः विचित्रवीर्यवरजो नाम्ना चित्राङ्गदोहतः यस्यां पराशरा साक्षाद् अवचेर्णो हरे कला वेदगुप्तो कृष्णो यतोह विदमध्यगां हित्वा श्वशु स्यान् पैलादीन् भगवान् वादरायणः मह्यं पुत्राय शान्ताय परं गुह्याम् इदं जगौ विचित्रविर्योथो वाह काशिराजसुते बलात् स्वयंबरा उपानीते अंबिका उभे तेरासक्तहृद गृही तो यमणा मृत